श्रीगुरुभ्यो नमः हरिः ॐ गणाना आं त्वा गणपतिगङ्गवामयि कविं कवीनामुपमस्रवस्तमं ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनस्तृणन्नोति विस्थेदसादनं महागणपतये नमः प्राणो देवी सरस्वती वाजे वाजेर्भिर्वाज धीनाम धीनामभिद्र्यवतु आनो दिवो बृहत् पर्वतादा सरस्वती जजताज गन्तुं यज्ञं वाग्देव्यै नमः शान्तिमन्त्राः ॐ सहनावतु सहनौ भुनक्तु सहवीर्यं परबावहै तेजस्मिन् आमदितमस्तु माविद्विषावहैः ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ सन्नो मित्रसंवरुणः सन्नो भवद्वर्यमा सन्न इन्द्रो बृहस्पतिः षण्णो विष्णुरुक्रमः नमो ब्रह्मणि नमस्ते वायु त्वमेव प्रत्यक्षं ब्रह्मासि त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम् ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ भद्रं कर्णेभिष्णुजामदेवा भद्रं पश्य मा चभिर्यजत्राः चिरैरङ्गै सुष्ठु वागं सस्तनोभिः यशेम देवहितैर्यदायुः स्वस्ति न इन्द्रो स्वस्ति न पूखा विश्ववेदा स्वस्ति नस्तार्क्षो अरिष्टरेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ नमो ब्रह्मणे नमो अष्टग्नये नम पृथिव्यै नम ओषधिभ्यः नमो वाचे नमो वाचस्पतये नमो निष्टवे बृहते करोमी ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ तच्छैरावृणीमहे गातु यज्ञाय गातु यज्ञपतये दैवी ईस्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं उर्धं गातु भेषजं सन्नो अस्तुद्भिपदे एं सं चतुष्पदे ॐ शान्तिः शान्तिः शान्तिः हरिः ॐन्दसामृशभोविश्वरूप छन्दोऽभ्योऽध्यमृता आसम्बभूव समिन्द्रो मेधया आस्मिणोतु अमृतश्च देवधारणो भूयासम् शरीरं देविचर्षणं जीवामे दे मधुमत्तमा कर्णाभ्यां भूरिविस्रुवं ब्रह्मणकोशोशी मेधया पीतं श्रुतं मे गोपाय ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ मधुवातारितायते मधुक्षरन्ति सिन्धवा माध्वी एढ सन्तोषधीः मधुनक्तमुतोषति मधुमत्पार्थिवगम्रजः मधुद्यौरस्तु न पिता मधुमाण्ढो वनस्पतिर्मधुमागम् अस्तु सूर्य मा दुर्गावो भवन्तु नः ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ पूर्णमदः पूर्णमिदः पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ असतोमा सज्जमयं तमसोमा ज्योतिर्गमयं मृत्युर्मामृतं गमय ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ